पुरीपाल शैल प्रिय दुहि त्रिनाथोऽस्य भगवान् समम् भूतौ राते यदु बलमशङ्कम् निरुधेः महाप्राणो बाणो झटिति युयुधानेन युयुधे गुह प्रद्युम्नेन त्वमपि पुरहान्त्र जगतिषे।